शिवशक्त्या युक्तो शिवशक्त्या भवति शक्तः प्रभवितुम् यदितुम् न चेदेवं देवो न चेदेवं अतस्त्वा माध्याम् अतस्त्वा माध्या हरिहरञ्चादिभिरपि हरिहर विरिञ्चादिभिरपि हर प्रणन्तुं स्तोतुं वा प्रणन्तुं स्तोतुं वा कथम् कृतपुण्यः प्रभवति कथं कृतपुण्यम्नीयां संव चरण पङ्केरुह विरचयति लोकान् विकलम् विरचयति लोकान् विकलम् वहत्येन शौरिः वहत्येन शौरिः कथमपि सहस्रेण शिरसाम् कथमपि सहस्रेण शिरसा रस्संक्षुभ्यैनम्क्षुभ्य विधिम् अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी अविद्यानामन्तस् जडानाम चैतन्यस्तबगमकरन्दश्रुतिझरी जडानां चैतन्यस्तबगमकरन्दश्रुतिझरी दरिद्राणां चिन्तामणिगुणनिका जन्म जलधौ चिन्तामणिगुणनिका जन्म जलधौ निमग्नानां दंष्ट्रा निमग्नानां दंशाहस्य भवति मुररिपुवराहस्य भवति मुररि त्वदन्यः अभय दैवत पिभ्यादो दभयो दावतगणवासी प्रकटितीनया प्रकवरा भयात्रातुं दातुम् भयात्रा फलमपि तुं, तुं, च वाञ्छासमधिकम् फलमपि च वाञ्छासमधिकम् शरण्ये लोकानाम् शरण्ये लोकानाम् तव हि चरणा ेव निपुणौ चरणावेव निपुणौ हरिस्त्वा माराध्य हरिस्त्वा माराध्या स्मरोपित्वां नत्वा स्मरो रतिनयनलेह्येन वपुषा रतिनयनलेहेन वपुषा नीनामप्यन्तः मोहाय धनुःष्पं मौर्वी धनुः पौष्पं मौर्वी मधुकरमयी पञ्चविशिखाः यी पञ्चविशिखाः वसन्तस्सामन्तो वसन्तः सामन्तो मलय धनरथः मलय धनरथः तथाप्येकः सर्वम् सर्वम् हिमगिरिसुते कामपि कृपा हिमगिरिसुतेकामपि कृपा अपाङ्गात्ते लब्ध्वा अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयत जगदिदमनङ्गो विजयते क्वणत्काञ्चीदामा क्वणत्काञ्ची करिकलभकुम्भस्तनता करिकलभकुम्भस्तनलता परीक्षीणा मध्ये परीक्षीणा शरच्चन्द्रवदना वरिणत शरच्चन्द्रवदना धनुर्बाणान् पाशम् धनुर्बाणान् पाशम् शृणिमपि दधाना करतलैः श्रृणिमपि दधाना करतलैः पुरस् राहो सुधा सिंधो सुधा मध्ये सुरविटपि बाटी परिवृते सुरविटपि परिवृते बाटीपेणी गोपनवति चिन्तामणिगृहे द्रीपेकोपनवति चिन्ता शिवाकारे मञ्चे शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयान् भजन्ति त्वां धन्याः भजन्ति चिदानन्दलहरीचिदानन्दलहरी महीं मूलाधारे कमपि मणिपूरे हुतवहम् कमपि मणिपुरे हुतवहम् स्थितं स्वाधिष्ठाने स्थितं स्वाधिष्ठाने, स्वाधिष्ठाने। हृदि मरुतमाकाशमुपरि मनोपिभ्रो मध्य मनोपिध्ये सकलमी भि कुलपथम सकलमी भि कुल सहस्रारे पत्नी हरहसी पत्या सरहसी विहरसे सुधा धारा सारे सुधा धारा सारे पञ्चं सिञ्चन्ति प्रपञ्चं सिञ्चन्ति पुनरपि रसाम्नाय महसः पुनरपि रसाम्नाय महसः अवाप्य स्वां भुजगनिभमध्युष्टवलयम्भमध्युष्टवलयम् <hujaga> स्वमात्मानं कृत्वा स्वमात्मानं कुहरिणी। स्वपि श्रिकुलकुण्डे